सद्यो जातम् प्रपद्यमि सद्यो जाताय मे नमो नमः भवे भवे भवेनाति भवे भव स्वमाम् भवाय नमः वामदेवा जनमो ज्येष्ठा जनम श्रेष्ठा जनमो रुद्राकाला जनमकलविकर्णा जनमो बलविकर्णा जनमो बला जनमो बलप्रवथना जनमः सर्वभूतदमना जनमो मनोन्मना जनमः अघोरेभ्योऽथो घोरघोरकरे सर्वेभ्यः सर्वेभ्यो नमस्ते अस्तु तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपदग् ब्रह्मणाधिपदग् शिवोमे अस्तु सदा शिवो नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतज उमापतजे पशुपतजे नमा नमः